नारदपुराणं पूर्वार्थम् अध्यायम् 18. सनक उवाच अन्यव्रतपरं वक्ष्यशृणुष्वमुनिसत्तम सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणं ब्राह्मणक्षत्रियविशां शूद्राणां योषितां तथा समस्तकामफलदं सर्वव्रतफलप्रदम् दुःस्वप्ननाशनं धर्म्यं दुष्टग्रसनिवारणं सर्वलोकेषु विख्यातं पूर्णिमाव्रतमुत्तमं येन चीर्णेन पापानां राशिकोटि प्रशाम्यदि मार्गशीर्षे सिधे पूर्णायाम् नियतशुचिः स्नानम् कुर्याद्यथाचारम् दन्तधावनपूर्वकम् शुक्लाम्भरधरशुद्धो गृहमागत्य वाग्यदः प्रक्षाल्यपादावाचम्य स्मरत्रारायणम् प्रभुम् नित्यम् देवार्चनम् कृत्वा पश्चात् सङ्कल्पपूर्वकम् लक्ष्मीनारायणम् देवमर्चयेत् भक्तिभावतः आवासनासनाद्यैश्च गन्धपुष्पादिभिर्व्रती नमो नारायण यदि पूजयेद्भक्तितत्परः वेदैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः वाराधये देवं व्रद कृत्सु कृत्सुसमाहिदः देवस्य पुरद कृत्वा स्तण्डिलम् चतुरस्रकम् अरत्निमात्रम् तत्राङ्गिम् स्थापयेद्गृह्य मार्गदः आद्यभागान्तर्पयन्तम् कृत्वा पुरुषसूक्तदः चरणा च तिलयिष्वापि कृतेन जुहुयात्तथा एकवारम् द्विवारम् वा त्रिवारम् वापि शक्रिदः ओमम् कुर्यात् प्रयत्नेन सर्वपापनिवृत्तये प्रायश्चित्तादिकम् सर्वं स्वगृह्योक्तविधानदः समाप्य होमं विधिवच्चान्ति सूक्तं जपेद् द्रुधः पश्चाद्देवं समागत्य पुनः पूजां प्रकल्पयेत् तथोपवासं देवाय ह्यर्पयेद् भक्तिसंयुधः पौर्णमास्यां निराहारस्थित्वा देव भोक्ष्यामि पुण्डरीकाक्ष परेनिशरणं भव यदि विज्ञाप्य देवाय ह्यर्ख्यं दत्यात्तैन्धवे जानुभ्यामवनीं गत्वा शुक्लपुष्पाक्षतान्वितः क्षीरोदार्णवसम्भूद अधिगोत्रसमुद्भव ग्रहाणार्घ्यं मया दत्तं रोहिणी नायकप्रभो एवमर्घ्यं प्रदायेन्तोः प्रार्थयेत् प्राञ्चलिस्ततः तिष्ठन् पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद नमः शुक्लां शवेतुभ्यं द्विजराजायते नमः रोहिणीपदयेतुभ्यम् लक्ष्मीभ्रात्रे नमोऽस्तु ते ततश्च जागरं कुर्यात्पुराणश्रवणादिभिः जितेन्द्रियश्च संशुद्धः पाषण्डालोकवर्जितः ततः प्रातः प्रकुर्वीदस्वाचारं च यथाविधि पुनः देवं यथा विभवविस्तरं ब्राह्मणान् भोजये चक्रिया तदश्च प्रयदो नरः बन्धुभृत्यादिभिः सार्धं स्वयं भुञ्जीद वाग्यदः एवं पौषादिमासेषु पूर्णमास्यामुपोषिदः अर्चयेद्भक्तिसंयुक्तो नारायणमनायमम् एवं संवत्सरम् कृत्वा कार्तिक्यां पूर्णिमादिने उद्यापनं प्रकुर्वेद तद्विधानं वदामिते। ते कारये दिव्यं चतुरस्त्रं सुमङ्गलम् शोभितम् पुष्पमालाभिर्वितानध्वजराजितम् बहुदापस माकीर्णम् किङ्गिणीजालशोभितम् दर्पम्णैश्चामरैश्चैव कलशैश्च समावृतम् तन्मध्ये सर्वतो भद्रम् पञ्चवर्णविराजितम् जलपूर्णं तदकुम्भं कुम्भं न्यस्येत् तस्योपरि द्विज पिधाय कुम्भं वस्त्रेण सुसूक्ष्मेणादिशोभितं हेम्ना वा रचतेनापि तथा ताम्रेण वा लक्ष्मीनारायणं देवं कृत्वा तस्योपरि न्यसेद पञ्चामृतेन संस्नाप्याभ्यर्च्य गन्धादिभिक्रमाद भक्ष्मैर्भोज्यादिनैवेद्यैर्भक्तिदस्सं यतेन्द्रियः जागरं च तथा कुर्यात् सम्यक् चरद्धा समन्वितः परेह्नि प्रादुर्विधिवत्पूर्ववद्विष्णुमर्चयेत् आचार्याय प्रदातव्या प्रतिमा दक्षिणान्विदा ब्राह्मणान् भोजये चक्रिया विभवेत् सत्यवारिधम् तिलदानम् प्रकुर्वेद यथा चक्रिया समाखितः कुर्यादग्नौ च विधिवतिल होमम् विचक्षणः एवम् कृत्वा नरः सम्यक् लक्ष्मीनारायणव्रतम् इह भुक्त्वा महाभोगान् पुत्रपौत्र समन्वितः सर्वपापविनिर्मुक्तकुलायुधसमन्वितः प्रयाति विष्णुभवनम् योगिनामपि दुर्लभम् इति श्रीबृहन्नारदपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षपौर्णिमायाम् लक्ष्मी लक्ष्मीनारायणव्रतं नामाष्टादशोऽध्यायः ओम्